अथ सप्तत्रिंशोऽध्यायः वैशम्पायनुवाच कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः संस्मृत्य मुनिसन्देशमिदम् विविक्ते विदितप्रज्ञमर्जुनम् पुरुषर्षभ सान्त्वपूर्वम् स्मितम् कृत्वा वनवासमरिन्दमः धनञ्जयम् धर्मराजो रहसीदमुवाचः युधिष्ठिर उवाच भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः दैवम् ब्राह्मम् मानुषम् च स यत्नम् सर्वास्त्राणां चिकित्सितम् च अभिजानन्ति कृत्स्नशः ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा आचार्यामानितास्तुष्टाः शान्तिम् व्यवहरन्त्युत शक्तिम् न हापयिष्यन्ति ते काले प्रतिपूजिताः अद्य मही कृत्स्ना दुर्योधनवशानुगा स ग्राम नगरा पार्थससागर भवानेव प्रियोऽस्माकम् त्वयि भारः समाहितः अत्र कृत्यम् प्रपश्यामि प्राप्तकालमरिन्दम कृष्णद्वैपायनात्तातगृहीतोपनिषन्मया तया प्रयुक्तया सम्यग् जगत् सर्वम् प्रकाशते तेन त्वम् ब्रह्मणा तात संयुक्तः सुसमाहितः देवतानाम् यथा कालम् प्रसादम् प्रतिपालय तपसा योजयात्मानमुग्रेण भरतर्षभ धनुष्मान्कवची खड्गी मुनिः साधुव्रते स्थितः न कस्यचिद्दन् मार्गम् गच्छ इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जया वृत्राद्भीतैर्बलम् देवैस्तदा शक्रे समर्पितम्